हर ओ श्री सीताचंद्रभ्या अथ श्रीमद्दीक रायण युद्ध कांडे सप्तवांश वन श्रीराम लक्ष्मण रक्षण रावण राक्षसी भी पुष्पेण सीतायाणभूमो नयनम तत्रतया श्रीराम से लक्ष्मण दर्शन सीताप तस्मिन् प्रविष्टे गङ्गायाम् कृतार्थे रावणात्मजे राघवम् परिवारयथ ररक्षुर्वानशभ हनुमान् नङ्गदो नैव सुषेण कुमुदो नलः गजो गवाक्षो गवयः शरभो गन्धमादनः रम्भश्च तलीपृथु व्यूढानैकाश्च यथा च द्रुमानादाय सर्वतः वीक्षमाणाधिशः सर्वा तिर्यगूर्ध्वम् च वानरः तृणेष्वपि च चेष्टत्सु राक्षसा इति मे निरे रावणश्चापि आजुहावे तत् सीता रक्षणे राक्षसी राक्षसीस्तराय राक्षस त्रिजटा चापि शासना तमुपस्थितः प्रायुवाच ततो रुष्टौ राक्षसी राक्षसाधिपः हतौ इन्द्र जिताख्याते वैदेह्य राम लक्ष्मणौ पुष्पकं तत् दर्शयध्रं रणे हतौ यदाश्रयादवत् शब्धा देयं मामुपतिष्ठते तोस्या भ्रात्रा निहतो रणमूर्धनी निर्विशङ्का निरुद्विघ्ना निरपेक्षा च मैथिली मामुपस्थास्यते पीता सर्वाभरणभूषिता अद्य कालवशम् प्राप्तम् रणे रामम् स लक्ष्मणम् अवेक्ष्य विनिवृत्ता सा चान्याम् गतिम् अपश्यति अनपेक्षा विशालाक्षी माम् उपस्थास्यते स्वयम् तस्य तद्वचनम् श्रुत्वा रावणस्य दुरात्मनः राक्षसश्च तथेत्युक्त्वा जग्मुै यत्र पुष्पकम् ततः पुष्पैकमाराय राक्षस्यो रावणाज्ञया अशोक वनिकास्थान्तां मैथिलीं समुपानयन् तामादाय तु राक्षस्यो भर्तृशोक पराजिताम् सीतामारोपयामासु विमानं पुष्पकं सभा ततः पुष्पैकमारोप्य श्रीतां त्रीजटया सह जग्मुर्दर्शयितुं तस्यै राक्षसो राम लक्ष्मणो रावणश्चारयामास पताकमालिनीम् प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः राघवो लक्ष्मणश्चैव हतो इन्द्रजितारणे विमाने नापि तु सीतात्रीयतया ददर्शे वानराणान्तु सर्वं सैन्यम् निपातितम् प्रवृष्ट मनसश्चापि ददर्शे पिशिताशनान् वानश्चाति दुःखाताम् राम लक्ष्मण पार्श्वतः ततः सीता ददर्शो भौ शयानौ शरतल्पगौ लक्ष्मणम् चैव रामम् च विदन्यौ शरपीडितौ विद्वस्तकवचो वीरौ विप्रविद्ध शरशनौ सायकै छिन्न सर्वाङ्गौ शरस्तम्भमयोक्षितौ तौ दृष्ट्वा भ्रातरौ तत्र प्रवीरौ पुरुष शभौ शयानौ कुमारो इव पावके शरतल्प वीरो, तथा भूतो नरशभौ दुःखाताकरुणं शीतः सुभृशं विललापः भक्तारम् मनवगङ्गी लक्ष्मणं चासिते क्षण प्रेक्ष्य पाशु सुन्तौ रुरोधात्मजा स बाष्पशो काभ्यता समीक्षौव्रातरो देव सुत प्रभवौ वितर्कयन्ती निधनं तयो सा दुःखान्विता वितावा किमिदं जगाद इत्याशे श्रीमद्वाल्मीकि रामायणे आदिकाव्ये युद्धकाण्डे सप्तचत्वारिन् सर्गै, सर्गे श्री सीता